अथ पञ्चाशीतितमः सर्गः तस्य तद्वचनम् श्रुत्वा राघवशोकर्षितः नोपधारयते व्यक्तम् यदुक्तम् तेन रक्षसा ततो धैर्यमवष्टभ्य रामः परपुरञ्जयः विभीषणमुपासीनमुवाचकपि सन्निधौ नैररुताधिपते वाक्यम् यदुक्तम् ते विभीषणा भूयस्तच्छ्रोतुमिच्छामि ब्रूहि यत्ते विवक्षितम् राघवस्य वच श्रुत्वा वाक्यम् वाक्यविशारदः यत्तत्पुनरिदम् वाक्यम् बभाषेथ विभीषणः यथाज्ञप्तम् महाबाहो त्वया गुल्मनिवेशनम् तत्तथानुष्ठितम् तान्यनीकानि सर्वाणि विभक्तानि समन्ततः विन्यस्त यूथपाश्चैव यथा न्यायम् विभागशः भूयस्त्वममविज्ञाप्यम् तच्छृणुष्व महाप्रभो त्वय्यकारणसन्तप्ते सन्तप्तहृदया वयम् त्यज राजन्निमम् शोकम् मिथ्या सन्तापमागतम् यदि यम् त्यज्यताम् चिन्ता शत्रुहर्षविवर्धिनी उद्यमः क्रियताम् वीरहर्षः समुपसेव्यताम् प्तव्या यदि ते सीता हन्तव्याश्च निशाचराः रघुनन्दनवक्ष्यामि श्रूयताम् मे हितम् वचः यातु सौमित्रिर्बले न महतावृतः विकुम्भिलायाम् सम्प्राप्तम् हन्तुम् रावणिमाहवे धनुर्मण्डलनिर्मुक्तैराशिविषविशोपमैः शरैर्हन्तुम् महेश्वासो रावणिम् समितिञ्जयः तेन वीरेण तपसा वरदानात् स्वयम्भुवः अस्त्रम् ब्रह्म शिरः प्राप्तम् कामगाश्चतुरङ्गमाः स एष किल सैन्येण प्राप्तः किल निकुम्भिला यद्युत्तिष्ठेत्कृतम् कर्म हतान् सर्वांश्च विद्धिनः निकुम्भिलामसम्प्राप्तमकृताग्निम् च यो रिपुः त्वामाततायिनम् हन्यादिन्द्रशत्रोऽसते वधः परो धत्तो महाबाहो सर्वलोकेश्वरेण वै इत्येवम्विहितो राजन् वधस्तस्यैषधीमतः वधायेन्द्रजितो रामसन्दिशस्व हते तस्मिन् हतम् विद्धि रावणम् स सुहृद्गणम् रामो वाक्यमथाब्रवीत् जानामि रौद्रस्य मायाम् सत्यपराक्रम स हि ब्रह्मास्त्रविप्राज्ञो महामायो महाबलः करोत्क्यसञ्ज्ञान् सङ्ग्रामे देवान् सवरुणानपि तस्यान्तरिक्षे चरतः सरथस्य महायशः न गतिर्ज्ञायते वीरसूर्यस्येवाभ्रसम्प्लवे राघवस्तुरिपोर्ज्ञात्वा माया वीर्यम् दुरात्मनः लक्ष्मणम् कीर्तिसम्पन्नमिदम् वचनमब्रवीत् यद्वा नरेन्द्रस्य बलम् तेन सर्वेण संवृतः हनूमत्प्रमुखैश्चैव यूथपैः सह लक्ष्मणा जाम्बवेनर्क्षपतिना सह सैन्येन संवृतः जहितं राक्षससुतं मायाबलसमन्वितम् अयम् त्वाम् सचिवैः सार्धम् महात्मा रजनीचरः अभिज्ञस्तस्य मायानाम् राघवश्य वच श्रुवा लक्ष्मण सीभीषण जग्राहकाक्रेष्ठ मन भीम पराक्रम सन्नद्ध कवची खड़गे सशरीवाम चापृत्मुपस्पृश्य हृष्ट सौमित्रिब्रवीत अद मकाकोन्मुक्ता शरा निर्भिरावणि अद्यैव तस्य रौद्रस्य शरीरम् मामकाः शराः विधमिष्यन्ति भित्त्वा तम् महाचापगुणच्युताः एवमुक्त्वा तु वचनम् द्युतिमान् भ्रातुरग्रतः सरावणिवधाकाङ्क्षी लक्ष्मणस्त्वरितम् ययौ स्वोऽभिवाद्यगुरोः पादौ कृत्वा चापि प्रदक्षिणम् विकुम्भिलामभिययौ चैत्यम् रावणिपालितम् विभीषणेन सहितो राजपुत्रः प्रतापवान् कृतस्वस्त्यय नो भ्रात्रा लक्ष्मणस्त्वरितो ययौ वानराणाम् सहस्रैस्तु हनूमान् बहुभिर्वृतः विभीषणश्च सामात्यो लक्ष्मणम् त्वरितम् ययौ महता हरिसैन्येन सवेगमभिसंवृतः वृक्षराजबलम् चैव ददर्श पथि स गत्वा दूरमध्वानम् सौमित्रिर्मित्रनम् दनः राक्षसेन्द्रबलम् दूरादपश्यद् व्यूहमाश्रितम् स सम्प्राप्य रघुनन्दनः विभीषणेन सहितो राजपुत्रः अङ्गदेन च वीरेण तथा निलसुतेन च विविधमलशस्त्रभास्वरम् तध्वज गहनं गहनम् महारथैश्च प्रतिभय त प्रमे बलं प्रमेय वेगम् तिमिरमिव द्विषताम् इत्यार्षे श्रीमद् रामायणे आदिकाव्ये युद्धकाण्डे पञ्चाशीतितमः